त्रिंशदधिकशततमोऽध्यायः वैशम्पायन ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् अब्रवीत् पार्थिवम् राजन् सखायम् विद्धिमामिह इत्येवमुक्तः सख्यासप्रीतिपूर्वम् जनेश्वरः भारद्वाजेन पांचालो नामृष्यतवचोऽस्य सक्रोधामर्षजिह्मभ्रूः कषायीकृतलोचन ऐश्वर्यमदसम्पन्नो द्रोणम् राजाब्रवीदिदम् द्रुपद उवाच अकृतेयम् तव प्रज्ञा ब्रह्मन्नातिसमञ्जसा यन्माम् ब्रवीषि प्रसभम् सखातेऽहमिति न ही रादीर्णावूतेन रहे क्वचि सख्यम होती मंदत्मन श्रििया हनच्युत सौहृद्य जी काल न पिजीत सौदेया लोके हृद क कालो ह्येनम् विहरति क्रोधो वैनम् हरत्युत मैवम् जीर्णमुपास्वत्वम् सख्यम् भवत्वपाकृधि आसीत्सख्यम् द्विजश्रेष्ठत्वयामेर्धनिबन्धनम् न दरिद्रो वसुमतो ना विद्वान् विदुषः सखा न शूरस्य सखा क्लीबः सखि पूर्वम् किमिष्यते ययोरेव समम् वित्तम् ययोरेव समम् श्रुतम् तयोर्विवाहः सख्यम् च न तु पुष्टविपुष्टयोः ना श्रोत्रियः नाराजा पार्थिवस्यापि सखि किमिष्यते वैशम्पायन द्रुपदेनैव मुक्तस्तु भारद्वाचः प्रतापवान् मुहूर्तम् चिन्तयित्वा तु मन्युनाभिपरिप्लुतः स विनिश्चित्य मनसा पाञ्चालम् प्रतिबुद्धिमान् जगाम कुरु मुख्यानाम् नगरम् नागसाह्वयम् स नागपुरमागम्य गौतमस्य निवेशने भारद्वाजोऽवसत्तत्र प्रच्छन्नम् द्विजसत्तमः ततोऽस्य तनुजः पार्थान्कृपस्यानन्तरम् प्रभुः अस्त्राणि शिक्षयामासना बुध्यन्त च जनाः एवम् स तत्र गूढात्मा कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वयात् क्रीडन्तो बीटया तत्र वीराः पर्यचरन् मुदा पपातकूपे सा वीटा तेषाम् वै क्रीडताम् तदा ततस्ते यत्नमातिष्ठन् वीटामुद्धर्तुमादृता न च प्रत्यपद्यन्त कर्म वीटोपलब्धये ततोऽन्योन्यमवैक्षन्त व्रीडयावनताननाः तस्यायोगमविन्दन्तो भृशम् चोत्कण्ठिताभवन् ते पश्यन् ब्राह्मणम् श्याममापन्नम् पलितम् कृशम् कृत्यवन्तमदूरस्थम् अग्निहोत्र अग्निहोत्रपुरस्कृतं। तेतं तम् दृष्ट्वा महात्मानमुपगम्य कुमारकाः भग्नोत्साहक्रियात्मानो ब्राह्मणम् पर्यवारयन् अथ द्रोण दृष्ट्वा दृष्ट कृत्यवतदा प्रहस्य अभ्यभाषत वीर्यवान। अहो वो धिबल धिगेतां धिगेता वह कृतास्त्रता भरत सन्व जाताे वीटा नाधिग्छत वीटाच मुद्रिका उद्धरे यमिषीकाभिर्भोजनम् मे प्रदीयताम् एवमुक्त्वा कुमारांस्तान् कूपे निरुदके तस्मिन्नपातयदरिन्दमः ततोऽब्रवीत्तदा द्रोणम् कुन्तीपुत्रो युधिष्ठिरः